ॐ परमात्मने नमः श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवते महापुराणे सप्तमस्कन्धे चत्वारिंशोऽध्याय देवी वाच प्रातरुत्थाय शिरसि संस्मरेत् पद्ममुज्ज्वलम् कोराभं स्मरेत् तत्र श्रीगुरुं सुप्रसन्नं लस दूष भूषितं शक्तिसंयुतं नमस्कृत्य ततो देवीं कुण्डलिं संस्मरेद्बुध आकाशमानां प्रथमे प्रयाणे पतिप्रयाणेप्यमुतायमानाम् अन्तः पदव्याम् अनुसञ्चरन्तीम् आनन्दरूपां सबलां तु बध्येत् ज्ञात्वैवं तच्चिखा मध्ये तच्चिदानन्दरूपिणीं नां ध्यायेत् स शौचादि क्रिया सर्वः समापयेत् अग्निहोत्रं ततो हुत्वा मत्प्रत्य सन्धियोमये ओ मां ते श्वासनेसित्वा भूतयुद्धिं पुरा मातृकान्यासमेव च दुर्लेखा मातृकान्यासं नित्यम्बेव समाचरे भ्रूमध्ये तद्वधिकारम् हृङ्कारीन्य तत्तन्मन्त्रोदितान्न्यान् ज्ञासान् सर्वान् समाचरेत् कर्पयेत् स्वात्मनो देहे पीठं धर्मादिभिः पुनः ततोऽध्यायेन्मह देवीम् प्राणायामैर् विजृम्बिते हृदयम् हृदम् भोजे मम ममस्थाने, पञ्चप्रेतासने बुधे ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सुदाशिवहे एते पञ्चमः प्रेताय पादमूले मम स्थितः पञ्चभूतात्मका एते पञ्चावृथात्मकापि अहं तव्यस्तरुचिद्रूपाय तदते तास्मि सर्वदाय ततो विश्चरतां शक्ति तन्त्रेषु सर्वदा जात्वैवं मानसैर्भोगै पूजयेन्मां जपेदपि जपं समर्प्य श्रीदेवैः चतुर्घ्यस्थापनं पात्रा साधनकं कृत्वा पूजा द्रव्याणि शोधयेत् जलेन तेन मननः चात्र मन्त्रेण देशिकहे दिग्बन्धं च पुरः कृत्वा गुरुन्धत्वा ततः परम् सज्जनुज्ञां समादाय बाह्यपीठे ततः परम् हृदिस्थाम् भाविताम् मूर्तिम् मम देव्याम् मनोहराम् आवाहये ततः पीठे प्राणस्थापनविद्यया आसनावाहने चार्यम् पाचाध्याचमनम् तथा स्थानम् वासोद्वयं चैव भूषणानि च सर्वशः गन्धपुष्पम् यथा योग्यम् दत्त्वा देवैः स भक्तितः त्रीनाम् सम्यगाचरेत् प्रतिवारम् अषष्टानाम् शुक्रवारो निय्यते मूलदेवी प्रभारूपा मतव्य अङ्गदेवता तत्प्रभाय पचलव्याप्तम् त्रैलोक्यं च विचिन्तयेत् पुनरावृत्तिसंविताम् मूलदेवीं च पूजयेत् गन्धादिभिः सुगन्धैस्तु तथा पुष्पैः सुवासितैः नैवेद्यैतर्पणै चैव ताम्बूलै दक्षिणादिभिः तोषेन्मां सत्कुतेन नाम्नाम् सहस्रकेण च कवचेन चरिचि प्रभोन्मन्त्रै देव्यत, रुल्लेखोपनिषद्भवैः महाविद्या महामन्त्रै तोषयेन् मुहु। मुहुमुहुः क्षमापयेन् जगद्धात्रीं प्रेमाद्वृदयो नरहे पुरकाङ्गितसर्वाङ्गै बाष्पशुद्धाक्षिणीस्वनम् नृत्यगीतादिघोषेण तोषयेन्मां मुहुमुहुः वेदपारायणैश्चैव पुराणे सकलैरपि प्रतिपाद्यायतोऽहं वै तस्मात् स्तोषयेत्त्व मां इयं सर्वमपि मे सन्देहं नित्यहोमं ततः कुर्यात् ब्राह्मणा च सुवासिनिः वचुकान् त्वा मदन्यान् देवी बुद्ध्या तु भोजयेत् नत्वा पुनश्च हृदये विक्रमेण विसर्जयेत् सर्वं लुल्लेखया कुर्यात् पूजनं मम सुव्रते दुल्लेखा सर्वमन्त्राणां नायिका परमा स्मृता दुल्लेखादर्पणे नित्यम् अहं तत् प्रतिबिम्बिताय तस्माद्धुल्लेखाय दत्तम् सर्वम् मन्त्रै समर्पितम् गुरुम् सम्पूज्य भोजाद्यै कृतकुच्य समावहेत् य एवम् पूजये देवीम् श्रीमद्भवनसुन्दरीम् न तस्य दुर्लभम् किञ्चित् कदाचित् क्वचिदस्तिः देहान्ते तुमडे द्वीपम् मम यात्येव सर्वथा ये देव देवी सरे स्वरूपसौ देवा नित्यम् न मन्त्रितम् इति ते कथितम् राजन् महादेव्या प्रपूजनम् विमृशे तदशेषेण अप्रधिकारनुरूपतः कुरु मे पूजनम् तेन कृता सहस्रं भविष्यति शास्त्रं मे न शिष्याय वदेत् पचेत् न दूताय च दुर्हृदे एतत् प्रकाशनं मातु उद्घाटनमुदयः तस्मादवश्यं यत्नेन गोपनीयमिदं सदाय देयं भक्ताय शिष्याय ज्येष्ठपुत्राय चैव हि सुशीलाय सुवेशाय देवी भक्तियुताय च श्राद्धकाले पठेदे तत् ब्रह्मणानां समीपतः तृप्ता तत् पितरस् सर्वे प्रयान्ति परमं वदम् उवाच इत्युक्ता सा तत्रैवान्तरधीयते देवाश्च मुदिताः सर्वे देवी दर्शनतो भवन् ततो हिमालये जन्मी देवी हैमवती तु सा जयगौरीति प्रसिद्धासीत् दत्ता सा शङ्करायटे तदस्कन्धे समुद्भूते तारकतेन पातितः पूर्वम् रत्नाध्यासु रत्नान्ध्यासुरनराधिपये तत्र देवैः सुधा देवी लक्ष्मीप्राप्त्यर्थिमादरायत् तेषामनुग्रहाय निर्गतातुर्माततः वैकुण्ठाय सुर दत्ताय तेन तस्य शमो भवेत् इति राजन् देवी महात्म्यमोत्तरम् गौरी लक्ष्म्यो समाभूति विषयम् सर्वकामदम् न वाच्यं ते धनं यस्मै राज्यम् कतिसंयतः वितारस्य भूतेयम् गोपनीया प्रयत्नतः सर्वम् उक्तम् समासेन यत् दृष्टम् तत् त्वया न हे पवित्रम् किम् भूय श्रोतुमिच्छसि इति श्रीमद्देवी भागवते महापुराणे चादृश्याद्यां संहितायाम् सप्तमस्कन्धे देवी, देवी गीतायाम् बाह्यपूजाभिधिवर्णनं नाम चत्वारिंशोऽध्याय सप्तमस्कन्धे समाप्तः श्रीजगदम्बिकायार्पणमस्तु